कृष्णयजुर्वेदे क्रमपाठे तृतीयकाण्डे प्रथमः प्रारम्भः प्रजापतिरकामयत प्रजापतिरिति प्रजापतिः अकामयतप्रजाः प्रजासृजेय प्रजा इति प्राजाः सृजयेति इति सः स तपः तपोतप्यत अतप्यतसः स सर्पान् सर्पान्सृजत असृजतसः सोऽकामयत अकामयतप्रजाः प्रजासृजेय प्रजा इति प्राजाः सृजेयेति इति द्वितीयमतप्यत अतप्यतसः सवयागुंसि प्रयागस्य सृजत असृजतसः सोऽकामयत अकामयतप्रजाः प्रजासृजेय प्रजा इति प्राजाः सृजेयेति इति सः स तृतीयम् एतम् दी ईक्षितवादम् दीक्षितवादमपश्यत् दीक्षितवादमिति दीक्षितावादम् अपश्यत्तम् तमवदत् अवदत्ततः ततो वै वै प्रजा असृजत प्रजा इति प्राजाः असृजत यत् यत्तपः तपस्तप्त्वा तप्त्वा दीईक्षितवादम् दीक्षितवादम् वदति दीक्षितवादमिति दीक्षितावादम् वदति प्रजाः प्रजा एव प्रजा इति प्राजाः एव तत् तद्यजमानः यजमानसृजते सृजते यत् यद्वै वैदीक्षितः दीक्षितो मेध्यम् अमेध्यम् पश्यति पश्यत्यप अपा अस्मात् अस्माद्दीक्षा दीक्षा क्रामति क्रामति नीलम् नीलमस्य अस्य व्येति एत्यबद्धम् अबद्धम् मनः मनो दरिद्रम् चक्षुः चक्षुः सूर्यः सूर्योद्योतिषाम् ज्योतिषागश्रेष्ठः श्रेष्ठो दीक्षेः दीक्षेमा मामाह माहासीः मा, मा, आसीरिति इत्याह आहना नास्मात् अस्माद्दीक्षा दीक्षाप अपक्रामति क्रामतिना नास्य अस्य नीलम् नीलम् न हरः यद्वै वैदि ईक्षितम् ईक्षितमभिवर्षति अभिवर्षति दिव्याः अभिवर्षतीत्यभिवर्षति दिव्या, दिव्या, दिव्या आपः आपोशानन्ताः अशानन्ता ओजः ओजो बलम् बलम् दीक्षाम् दीक्षान्तपः दीक्षान तपो अस्य अस्य निः निर्घ्नन्ति घ्नत्युन्द्रतीः इन्द्रतीर्बलम् बलम् धत्त धत्तौजः मामे मे दीक्षाम् दीक्षाम् मा मा तपः तपोनिः इत्याह आहैतत् एतदेव एव सर्वम् सर्वमात्मन् आत्मन् आत्मन धत्ते धत्तेन ना, अस्य उजः ओजोबलम् बलम् न दीक्षाम् दीक्षान्न न तपः तपोनिः निर्घ्नन्ति घ्नन्त्यग्निः अग्निर्वै वैदि दीक्षितस्य देवता देवता सह सोऽस्मात् अस्मादेतर्हि एतर्हि तिरः तिर इव इव यर्हि यर्हि याति याति तम् तमीश्वरम् ईश्वरम् रक्षागुंसि रक्षागुंसि भद्रादभि अभिश्रेयः श्रेयःप्रेहि येहि बृहस्पतिः बृहस्पतिः पुर पुरयेता ते पुर एतेति एता, पुरा एता ते अस्तु अस्विति इत्याह आह ब्रह्म ब्रह्म वै वै देवानाम् देवानाम् बृहस्पतिः बृहस्पतिस्तम् तमेव एवान्वारभते अन्वारभते सः अन्वारभत इत्यनौ आरभते स एनम् एनगुंसम् पारयत्या एदं इदमगन्म अगन्म देवयजनम् देवयजनम् देवयजनमिति देवायजनम् पृथिव्या इति इत्याह आहदेवयजनम् देवयजनगृंहि देवयजनमिति देवायजनम् ह्येषः एष पृथिव्याः पृथिव्या आगच्छति आगच्छति यः आगच्छतीत्या आगच्छति यो यजते यजते विश्वे विश्वे देवाः देवायते यदजुषन्त अजुषन्त पूर्वे इत्याह आह विश्वे विश्वे हि ह्येतत् एतद्देवाः देवा जोषयन्ते जोषयन्ते यत् यद्ब्राह्मणाः ब्राह्मणा ऋक्सामाभ्याम् ऋक्सामाभ्याम् यजुषा ऋक्सामाभ्या विद्रिक्सामाभ्याम् युजुषा सन्तरन्तः सन्तरन्त इति सन्तरन्त इति सन्तरन्तः इत्याह आहृक्सामाभ्याम् रक्सामाभ्यागुम्हि रक्सामाभ्या विदृक्सामाभ्याम् ह्येषः एष यजुषा यजुषा सन्तरति सन्तरति यः यजते राजः राजस्पोषेण पोषेण सम् समिषा मदेमेति इत्याह आहाशिषम् आशिषमेव आशिषमित्याहाशिषम् एवैताम् एतामा आशास्ते शास्त शास्ते एषते ए ते गायत्रः गायत्रो भागः भाग ब्रूतादेशः एषते ए तेऽत्रैष्टुभः त्रैष्टुभो जागतः जागतो भागः भाग इति इति मे मेसोमाया सोमायब्रूतात् ब्रूताच्छन्दोमानाहम् छन्दोमानागम् साम्रा गच्छ साम्रा अज्यमिति साम्राज्यम् गच्छेति इति मे मे सोमाय सोमायब्रूतात् वै वै सोमम् सोमघुम् राजानम् राजानघुम् साम्रा अज्यम् साम्रा अज्यम् लोकम् साम्रा अज्यमिति क्रीडाति क्रीडाति गच्छति गच्छति स्वानाहम् स्वानागुम् साम्रा अज्यम् साम्राज्यमिति साम्राज्यम् छन्तागुंसि खलु खलु सोमस्य राज्ञः राज्ञः साम्राज्यः साम्राज्यो लोकः साम्रा अज्य इति सोमस्य क्रयात् क्रयादेवम् एवमभि अभिमन्त्रयेत मन्त्रयेत साम्राज्यमेव साम्राज्यमिति साम्राज्यम् एनम् लोकम् लोकम् गमयित्वा गमयित्वा क्रीणाति क्रीणाति गच्छति गच्छति स्वानाम् स्वानागम् साम्रा अज्यम् यः साम्रा अज्यमिति साम्राज्यम् यो वै वै तानोनप्तस्य तानोनत्रस्य प्रतिष्ठाम् तानोनप्त्रस्येति तानूनप्त्रस्य प्रतिष्ठाम् वेद प्रतिष्ठामिति प्रतिष्ठाम् वेद प्रतिप्रत्येव तिष्ठति ब्रह्मवादिनः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति न प्राश्नन्ति प्राश्नन्ति न प्राश्नन्तीति प्राश्नन्ति न जिह्वति जिह्त्यथा अथ क्व क्व तानोऽनप्त्रम् तानोऽनप्त्रम् प्रति तानोऽनप्रमिति तानोऽनप्रम् प्रतिष्ठति तिष्ठतीति इति प्रजापतौ प्रजापतौ मनसि प्रजापताविति प्रजापतौ मनसीति इति ब्रूयात् ब्रूयात्रिः त्रिरव अवजिघ्रेत् जिघ्रेत् प्रजापतौ प्रजापतौ त्वा प्रजापताविति प्रजापतौ त्वा मनसि मनसि जुहोमि इत्येषा एषा वै वै तानोनत्रस्य प्रतिष्ठा तानो नस्येति तानो नस्य प्रतिष्ठेति प्रतीस्था य एवम् वेदप्रति प्रत्येव एव तिष्ठति यो वै वाद्धर्योः अद्धर्योः प्रतिष्ठाम् प्रतिष्ठाम् वेदप्रति प्रत्येव एव तिष्ठति यतो मन्येत मन्येतानभिक्रम्य अनभिक्रम्य होष्यामि अनभिक्रम्येतनभिक्रम्य होष्यामीति इति तत् तत्तिष्ठन् तिष्ठन्ना आश्रावयेत् श्रावयेदेषा एषा वै वा अद्धर्योः अद्धर्योः प्रतिष्ठा प्रतिष्ठायः प्रतिष्ठेति प्रतिष्ठा य एवम् एवम् वेद वेदप्रति प्रत्येव एव तिष्ठति तिष्ठति यत् यदभिक्रम्य अभिक्रम्य जुहुयात् अभिक्रमेत्यभिक्रम्य जुहुयात्प्रतिष्ठाया आह प्रतिष्ठाया इयात् प्रतिष्ठाया इति प्रतिष्ठायाः या तस्मात् तस्मात् समानत्र समानत्र तिष्ठता तिष्ठता होतव्यम् होतव्यम् प्रतिष्ठित्यै प्रतिष्ठित्यः प्रतिष्ठित्य इति प्रतिष्ठित्यै यो वै वा अद्धर्योः अद्धर्योस्वम् स्वम् वेद वेदस्ववान् स्ववानेव स्ववानिति एव भवति भवति सृग् वा अस्य अस्य स्वं वायव्यम् वायव्यमस्य अस्य स्वम् स्वम् चमसः चमसो अस्य अस्य स्वम् स्वं यत् यद्वायव्यम् वायव्यम् वा चमसम् चमसम् वा अनन्वारभ्य अनन्वारभ्य श्रावयेत् अनन्वारभेत्यनो आरभ्य आश्रावयेत्स्वात् आश्रावयेदित्या आश्रावयेत् स्वादियात् अन्वारभ्याश्राव्यम् अन्वारभ्ये त्रिनो आरभ्य आश्राव्यग्स्वात् आश्यार्थ्या। दि दि आश्राव्यमित्राश्राव्यम् स्वादेव एव न इति एतयः यो वै वै सोमम् सोमम् प्रतिष्ठाप्य अप्रतिष्ठाप्य स्तोत्रम् अप्रतिष्ठाप्ये तिर्प्रतिस्थाप्य स्तोत्रमुपाकरोति उपाकरोत्यप्रतिष्ठितः उपाकरोति इत्युपाकरोति अप्रतिष्ठितः सोमः अप्रतिष्ठितैत्यप्रतिष्ठितः सोमो भवति भवत्यप्रतिष्ठितः अप्रतिष्ठितः सोमः अप्रतिष्ठितैत्यप्रतिष्ठितः सोमोऽप्रतिष्ठितानि अप्रतिष्ठितान्युक्थानि अप्रतिष्ठितानि इत्यप्रतिष्ठितानि उक्थान्यप्रतिष्ठितः अप्रतिष्ठितो यजमानः अप्रतिष्ठितैत्यप्रदेष्ठितः यजमानोऽप्रतिष्ठितः अप्रतिष्ठितोद्धर्युः अप्रतिष्ठितैत्यप्रतिष्ठितः अधर्युर्वायव्यम् वायव्यम् वै वै सोमस्य सोमस्य प्रतिष्ठा प्रतिष्ठा चमसः प्रतिष्ठेतिप्रतिष्ठा चमसोऽस्य अस्य प्रतिष्ठा प्रतिष्ठा सोमः प्रतिष्ठेतिप्रतिष्ठा सोम स्तोमस्य स्तोमस्य स्तोमः स्तोम उत्थानाम् उक्थानाम् ग्रहम् वा वा गृहीत्वा चमसम् चमसम् वा वो उन्नीयस्तोत्रम् इत्युतोन्नीय स्तोत्रमुपाकुर्यात् उपाकुर्यात्प्रति उपाकुर्यादित्युपाकुर्यात् प्रत्येव एव सोमम् सोमग्रस्थापयति स्थापयति प्रति प्रतिस्तोमम् स्तोमम् प्रति प्रत्युक्थानि उक्थानि प्रति प्रतियजमानः यजमानस्तिष्ठति तिष्ठति प्रति प्रत्यर्ध्वर्युः अध्वर्युरित्यध्वर्युः यज्ञम् वै वा एतत् एतत्सम् सम्भरन्ति भरन्ति यद् यत्सोमक्रीण्णी सो सोमक्रीणीपदम् सोमक्रीण्या इति सोमाक्रीण्ण्य पदम् यज्ञमुखम् यज्ञमुखगम् हविर्धानेः यज्ञमुखमिति यज्ञामुखम् हविर्धाने यरिहि हविर्धाने इति हविः धानेः यरिः हविर्धानेः हविर्धाने प्राचीः हविर्धाने इति हविः धानेः प्राचीः प्रवर्तयेयुः प्राची इति प्राची प्रवर्तयेयुस्तर्हि प्रवर्तयेयुरिति प्रावर्तयेयुः तर्हि तेन तेनाक्षम् अक्षमुप उपा अञ्जात् अञ्ज्याद्यज्ञमुखे यज्ञमुख एव यज्ञमुख एव यज्ञम् यज्ञमनु अनुसम् सन्तनोति तनोति प्राञ्चम् प्राञ्चमग्निम् अग्निम् प्रहरन्ति हरन्त्युत् पत्नीमा आनयन्ति नयन्ति नो अन्वनागुंसि अनागुंसि प्रवर्तयन्ति वर्तयन्तिथ अथ अस्य अस्यैषः एषधिष्ण्यः धिष्ण्यो हीयते हीयते सः सो नु ध्यायति सः स ईश्वरः ईश्वरो रुद्रः रुद्रो भूत्वा भूत्वा प्रजाम् प्रजाम् पशून् प्रजामिति प्रजाम् पशून् यजमानस्य यजमानस्य शमयितोः शमयितोर्यर्हि यर्हि पशुम् पशुमाप्रीतम् आप्रीतमुदञ्चम् नयन्ति तर्हि तर्हि तस्य तस्य पशुश्रवणम् पशुश्रवणम् हरेर् पशुश्रवणमिति पशुः श्रवणम् तेनैव एवैनम् एनम् भागिनम् भागिनम् करोति करोति यजमानः यजमानो वै वा आहवनीयो यजमानम् आहवनीय आहवनीयः यजमानम् वै वा एतत् एतद्वि विकर्षन्ते कर्षन्ते यत् यदाहवनीयात् आहवनीयात् पशुश्रवणम् आहवनीयादित्या आहवनीयात् पशुश्रवणम् हरन्ति पशुश्रवणमिति पशुश्रवणम् हरन्ति सः स वा वैव एव स्यात् स्यान्निर्मन्थ्यम् निर्मन्थ्यम् वा निर्मन्थ्यमिति निहि मन्थ्यम् वा कुर्यात् कुर्याद्यजमानस्य यजमानस्य सात्मत्वाय सात्मत्वाय यदि सात्मत्वाय इति सात्मत्वाय यदि पशोः पशोरपदानम् अवदानम् नश्येत् अवदानमित्यवदानम् नश्येदाज्यस्य आज्यस्य प्रत्याख्यायम् प्रत्याख्यायमव प्रत्याख्यायमिति प्रति आख्यायम् ततः ततः प्रायश्चित्तिः प्रायश्चित्तिर्ये ये पशम् पशुम् विमथ्नीरन् विमथ्नीरनयः विमथ्नीरन्निति विमथ्नेरन्स्तान् तान् कामयेत कामयेतापिम् आर्तिमा आर्च्छेयुः छेयुरिति इति कुवित् कुविदङ्ग अङ्गेति इति नमो वृत्तिवत्या नमोवृत्तिवत्यच्च नमो वृत्तिवत्तेति नमो वृत्ते वृत्त्या चाग्निईध्रे आग्निईद्रे जुहुयात् आग्निईध्र इत्याग्निईध्रे जुहुयाम् नमो वृत्तिम् नमो वृत्तिमेव नमो वृत्तिमिति नमः वृत्तिम् एवैषाम् एषाम् वृङ् आर्तिमा आर्च्छन्ति तृच्छन्ति त्रिच्छन्ति प्रजापते प्रजापतेरति प्रजापतेः जायमानाः प्रजाः प्रजा जाताः जा प्रजा इति प्रजाः या इमाः इमा इति इमाः तस्मै प्रति प्रतिप्रवेदय वेदे शिखित्वान् शिखित्वा अनु अनुमन्यताम् अनु मन्यतामिति मन्यताम् इमम् पशुम् पशुम् पशुपते पशुपते ते पिषुपत इति पशुपतेः ते अद्य अद्य बध्नामि अग्ने सुकृतस्य सुकृतस्य मध्ये सुकृतस्येति सुकृतस्य मध्ये इति मध्ये ए अनुमन्यस्व मन्यस्व सुयजाः सुयजायजाम सुयजेति सुयजाः यजामयुष्टम् तुष्टम् देवानाम् दे देवानामिदम् इदमस्तु इदं अस्तु हव्यम् हव्यमिति हव्यम् प्रधानन्तः प्रजानन्त इति प्राजानन्तः परिगृह्णन्ति गृह्णन्ति पूर्वे पूर्वे प्राणम् प्राणङ्गेभ्यः प्राणमिति प्राणम् अङ्गे एभ्यः परिपर्याचरन्तम् आचरन्तमित्या आचरन्तम् स्वर्गम् सुवर्गय याहि स्वर्गमिति स्वहागम् या हि पथिभिः पृथिभिर्देवयानैः पथिभिरिति पथिभिः देवयानैरोषुधीषु देवयानैरिति देवायनैः ओषधेषु प्रति प्रतिष्ठा तिष्ठा शरीरैः शरीरैः येषामीशे ईशे पशुपतिः पशुपतिः पशूनाम् पशुपतिरिति पशुपतिः पशूनाम् चतुष्पदाम् चतुष्पदामुत चतुष्पदामिति चतुर्पदाम् उत च छद्विपदाम् द्विपदामिति द्वीपदाम् निष्क्रीतोऽयम् निष्क्रीडिनिः क्रीडः अयम् यज्ञयम् यज्ञयम् भागमेतु हेतु राजस्पोषाः पोषा यजमानस्य सन्तु सन्त्विति सन्तु ये वर्ध्यमानम् वर्ध्यमानमनु अनुबध्यमानाः वध्यमाना अभ्यैक्षन्द अभ्यैक्षन्तमनसा मनसा चक्षुषा चक्षुषा च चेति च अग्निस्तान् तागुम् अग्रे अग्रे प्र प्रमुक्तु मोक्तु देवः देवः प्रजापतिः प्रजापतिः प्रजया प्रजापतिरिति प्रजापतिः प्रजया संविधानः प्रजयेरिप्राजया संविधान इति संविधानः य आरण्याः आरण्याः पशवः पशवो विश्वरूपाः विश्वरूपा विरूपाः विश्वरूपा इति विश्वारूपाः विरूपाः सङ्गः विरूपा इति सन्तो बहुधा बहुधैकरूपाः बहुधेति बहुधा एकरूपा इत्येका रूपाः वायुस्थान्तागुम् अग्रे अग्रे प्रमोक्तु मोक्तुदेवः देवः प्रजापतिः प्रजापतिः प्रजयाः प्रजापतिरिति प्रजापतिः प्रजया, प्रजापति प्रजया संविधानः रेतः प्रेतो गातुम् गातुम् धत्ता यजमानाय यजमानाय देवाः देवा इति देवा, देवाः उपाकृतकं देवा, देवा, शशमानम् उपाकृतमित्युपा आगतम् शशमानम् यत् यदस्थात् अस्थायज्जीवम् जीवम् देवाना देवानाम् देवानामपि अप्येतु एतत्पाथः पाथ इति पाठः नानाः प्राणः प्राणो यजमानस्य प्राण इति यजमानस्य पुशुनाः पशुनायज्ञः यज्ञो देवेभिः देवेभिः सह सह इति देवयानः देव जीवम् देवानाम् देवानामपि देवा अप्येतु येतु पाथः पाथः सत्याः यजमानस्य यजमानस्य कामाः कामा इति कामाः यत्पशुः पशुर्मायुम् मायुमकृत अकृतोरः रुरो वा पद्भिराहते पद्भिरिति पतिर्भिः आहत इत्या आहते अग्निर्मा मातस्मात् तस्मादेन तस्मा सह येन सोऽवाहात् विश्वा अन्मुञ्चतु मुञ्चत्वगंहसः अगम्हसैत्यगंहसः शमितार उपेतन उपेतनयज्ञम् उपेतनेत्युपादेतन यज्ञम् देवेभिः देवेभिरिन्द्वितम् इन्वितमिति इन्वितम् पाशात्पशुम् पशुम् पमुञ्चत मुञ्चान्धात् बन्धाद्यज्ञपतिम् यज्ञपतिम् परे यज्ञपतिमिति यज्ञापतिम् परेति परे अतिःपाशम् प्रमोत् नमोऽत्वेतम् एतम् नमः नमः पशुभ्यः पशुभ्यः पशुपतये पशुभ्य इति पशुभ्यः पशुपतये करोमि पशुपतय इति पशुपतये करोमीति करोमि रातीयम् तमधरम् अधरम् नृणोमि कृणोमि यम् यम् द्विष्मः द्विष्मस्तस्मिन् तस्मिन् प्रति प्रतिमुञ्चामि मुञ्चामि पाशम् पाशमिति पाशम् त्वामुते ते दधिरे दधिरे हव्यवाहकम् श्रतम् कर्तारम् हव्यवाहमिति हव्यावाहम् शतम् कर्तारमुत श्रतङ्कर्तारमिति श्रतम् कर्तारम् कृतयज्ञम् यज्ञम् च चेति च अग्ने सदक्षः सुदक्षः सतनुः सदक्ष इति सा दक्षः सतनुरिः सतनुरिति साधनुः हि भूत्वा भूत्वाथ अथ हव्या हव्या जातवेदः जातवेदो वपयाः जातवेद इति जातावेदः अपयागृच्छदेवान् देवान् त्वाम् त्वं हि हि होताः होताः प्रथमः प्रथमोऽभूथ अभूतेति बभूथ हृतेन त्वम् त्वम् तनुवः तनुमोवर्धयस्व वर्धयस्व स्वाहाकृतम् स्वाहाकृतम् हविः स्वाहाकृतमिति स्वाहाकृतम् हविरदन्तु अदन्तु देवाः देवा इति देवाः स्वाहा देवेभ्यः देवेभ्यो देवेभ्यः देवेभ्यः स्वाहा स्वा एति स्वाहा प्राजापत्या वै प्राजापत्या इति प्राजापत्याः वै यदेताभ्याम् एताभ्यामुपाकरोति उपाकरोति ताभ्याम् उपाकरोतीत्युपाकरोति ताभ्यामेव एवैनम् एनम् प्रतिप्रोच्या प्रतिप्रोच्येति प्रतिप्रोच्य आलभरे लभत आत्मनः आत्मनो नास्काय अनाम्बरस्काय द्वाभ्याम् अनाम्पुरस्कायेत्यनाअम्भरस्काय द्वाभ्याम् उपाकरोति उपाकरोति द्विपात् उपाकरोति इत्युपा आकरोति द्विपाद्यजमानः द्विपादिति द्वीपात् यजमानः प्रतिष्ठत्ति प्रतिष्ठित्या उपाकृत्या प्रतिष्ठित्या इति प्रतिष्ठिति उपाकृत्यपञ्च उपाकृत्येत्युप आकृत्य पञ्च जुहोति जुहोतिपाङ्ाः पाङ्ताः पशवः पशवः पशून् पशूनेव एवा अवरुन्धे रुन्धे नृत्यवे नृत्यदेवै वा एषः एष नीयते नीयते यत् यत्पशुः पशुस्तम् यत् यदन्वारभेतवारभेदप्रमायुगः वारभेतेत्यनो आरभेत प्रमायुको यजमानः प्रमायुक इति प्रामायुकः यजमानः स्यात् स्यान्नाः नानाः प्राणः प्राणो यजमानस्य प्राण इति प्राणः यजमानस्य पशुनाः पशुनेति इत्याह आहव्यावृत्ति व्यावृत्तिः यत् व्यावृत्या आवृत्तिः यत्पशुः पशुर्मायुम् मायुमकृता अकृतेति इति जुहोति जुहोति शान्ती शान्ति शमितारः शमितार उपेतन उपेतनेति उपेतनेत्युपातन इत्याह आह यथा यजुः यथा यजुरेव यथायजुरिति यथा युजुः एवैतत् एतद्वपायाम् उपायाम् वै वा आह्रियमाणायाम् आह्रियमाणायामग्नेः आह्रियमाणायामित्रा आह्रियमाणायाम् कामदि त्वाम् त्वामु ते दधिरे दधिरे हव्यवाहम् हव्यवाहमिति हव्यवाहमिति हव्यावाहम् इति पपान् पपामभियः अभिजुहोधि यहोत्यग्नेः एवमेधम् मेधमव अवरुन्धे रुन्धेथोः अथो श्रुतत्वाय अथो कृतयः श्रुतत्वायेति श्रुतात्वाय पुरस्तात् स्वाहाकृतयो वै पुरस्तात् स्वाहाकृतय इति पुरस्तात् स्वाहाकृतयः वा अन्ये अन्ये देवाः देवा उपरिष्टात् स्वाहाकृतयः उपरिष्टात् स्वाहाकृतयोऽन्ये उपरिष्टात् स्वाहाकृत इत्युपरिष्टात् स्वाहाकृतयः अन्ये स्वाहा स्वाहा देवेभ्यः देवेभ्यो देवेभ्यः देवेभ्यः स्वाहा स्वाहेति इत्यभितः अभितोपपाम् उपान् जुहोति जुहोति तान् तानेव एवोभयान् उभयान् यो वै वा अयथा देवतम् अयथा देवतम् यज्ञम् यथा देवतमित्ययथा देवतम् यज्ञमुपचरति उपचरत्या उपचरतीत्युपाचरति आ देवता देवता आभ्यो पृश्यते पृश्यदेवापीयान् आपीयान् भवति यो यथा देवतम् यथा देवतम् न यथा देवतमिति यथा देवतम् न देवताभ्यः देवताभ्यः आवृष्यते वृच्यते वसीयान् वसीयान् भवति भवत्याग्नेय्या आग्नेय्यर्चा यथाग्नेध्रम् आग्नेध्रमभि आग्नेमित्याग्नेम् अभिमृषेद् मृषेद्वैष्णव्या वैष्णव्याः व्यर्धानम् अव्यर्धानमाग्नेय्या अभिर्धानमिति हविः धानम् आज्ञेय्यासृचः स्रुचो वायव्यया वायव्यया वायव्यानि वायव्या अन्यीन्द्रिया ऐन्द्रिया सुदः यथा देवतम् यथा देवतमेव यथा देवतमिति यथा देवतम् एव यज्ञम् यज्ञमुप उपचरति चरति न देवता देवता आभ्यः आवृष्यते वृक्ष्यते वसीयान् भवति तद्युनज्मि युनज्मि ते पृथिवीम् पृथिवीम् ज्योतिषा ज्योतिषा सह सह इनज्मि इनज्मि वायुम् वायुमन्तरिक्षेण अन्तरिक्षेण ते सहा, सहा सहा, सहा सूर्ण्येन ते सः सह इनज्मि इनज्मिवाचम् वाचम् सह सह सूर्येण सूर्येण ते ते युनज्मि इनज्मि तिस्रः तिस्रो विप्रचः विवृचः सूर्यस्य विप्रच इति विवृचः सूर्यस्य ते त इति गायत्री छन्दः छन्द उपाघुंशोः उपाघुंशोः पात्रम् उपागुंशोरित्युपाघुंशोः पात्रमसि असि सोमः सोमो देवताः देवतात्रिष्टुप् तृष्टुप्छन्दः छन्दोऽन्तर्यामस्य अन्तर्यामस्य पात्रम् अन्तर्यामस्येत्यन्तःयामस्य पात्रमसि असीन्द्रः इन्द्रो देवताः देवता जगती जगति छन्दः छन्द इन्द्रवायुवोः इन्द्रवायोः पात्रम् इन्द्रवायुवोरितीन्द्रवायवोः पात्रमसि असि बृहस्पतिः बृहस्पतिर्देवताः देवतानुष्टुप् अनुष्टुप् छन्दः अनुष्टुप् छन्दो मित्रावरुणयोः मित्रावर्णयोः पात्रम् मित्रावर्णयोरितिमित्रावृणयोः पात्रमसि अस्यश्विनौ अश्विनौ देवताः देवतापङ्क्तिः पङ्क्तिच्छन्दः छन्दोऽश्विणोः अश्विणोः पात्रम् पात्रमसि असि सूर्यः सूर्यो देवता देवता बृहती पात्रमसि असि चन्द्रमाः चन्द्रमा देवता देवता सतो बृहती पन्थिनः पात्रम् पात्रमसि असि विश्वे देवाः देवा देवता देवतोष्ण्यः उष्ण्यः छन्दः छन्द आग्रहेणस्य आग्रहणस्य पात्रम् पात्रमसि असिन्द्रः इन्द्रो देवता देवता कगुत् कगुच्छन्दः छन्द उक्थानाम् उक्थानाम् पात्रम् पात्रमसि असि पृथिवी पृथिवीरेवता देवता विराट् विराट् छन्दः विराट् इति विराट् छन्दो ध्रुवस्य पात्रम् पात्रमसि असित्यसि इष्टर्गो वै वाद्धर्युः अद्धर्यजमानस्य यजमानस्येष्टर्गः इष्टर्गः खलु खलु वै वै पूर्वः पूर्वोष्टुः अष्टुः पाहि पाहि कस्याश्चित् चिदभिशस्त्याः अभिशस्त्या इति अभिशस्त्या इत्यभिशस्त्याः इति पुरा पुरा प्रातनुवाकात् प्रातर्नवाकाज्युहुयात् प्रातर्न्वाकादिति प्रातः अनुवाकात् युहुयादात्मनेः आत्मन एव तत् तदद्धर्युः अद्धर्युः पुरस्तात् पुरस्ताच्छर्म शर्म नह्यते नह्यते नार्ति अनार्तिसम्भेषाय संवेशायत्वा संवेशाय इति संवेशाय त्वोपवेशाय उपवेशायत्वापवेशाय त्रिपावेशाय त्वा गायत्र्याः गायत्र्यास्तृष्टुभः त्रिष्टुभो जगत्या अभिभोगोत्यै अभिभोगत्यै स्वाहा अभिभोगोत्या इत्यभिभोक्त्यैः स्वाहा प्राणापानौ प्राणापानौ मृत्योः प्राणापाना यदि प्राणापानौ मृत्योर्मा मा पातुम् पातुम् प्राणा प्राणापानौ प्राणापानौ मा प्राणापानाविति प्राणापानौ माहासिष्टम् मा, मा, हा शिष्टम् देवतासु दे देवतासु वै वा एते एते प्राणापानयोः प्राणापानयोर्व्यायच्छन्ते प्राणापानयोरिति प्राणापानयोः ये ये व्यायच्छन्ते येषाम् व्यायच्छन्त इति वि आयच्छन्ते येषाम् सोमः सोमः समृच्छते समृच्छते संवेशाय समृच्छत इति संवृच्छते संवेशाय त्वा संवेशाय इति संवेशाय स्वोपवेशाय उपवेशाय त्वा इत्याह आह छन्दागुंसि वै वै संवेशः उपवेशः संवेश संवेशः उपवेश्छन्दोभिः उपवेश इत्युपावेशः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवास्य अस्य छन्दागंसि छन्दागंसि वृङ्क्ते वृङ्क्ते प्रेतिवन्ति प्रेतिवन्त्याज्यानि प्रेतिवन्तीति प्रेतिवन्ति आज्यानि भवन्ति भवन्त्यभिजित्यै अभिजित्यै मरुत्वतीः अभिजित्या इत्यभिजिती वरुत्वती प्रतिपदः प्रतिपदो विजित्यै प्रतिपद इति प्रतिपदः विजित्या उभे विजित्या इति विजित्यी उभे बृहद्रसन्तरे उभे इत्युभे बृहद्रसन्तरे भवतः बृहद्रसन्तरे इति बृहत् रथन्तरे भवत इयम् इयम् वाव वावरथन्तरम् कथन्तरमसौ कथन्तरमिति रथम् तरम् असौ बृहत् बृहदाभ्याम् आभ्यामेव एवैनम् एनमन्तः अद्य वारथम् तरम् रथम् तरग्श्वः रथन्तरमिति रथम् तरम् श्वबृहद् बृहद्याश्वाद् अद्याश्वादेव अद्याश्वादित्यद्याश्वात् एवैनम् एनमन्तः अन्तरेति एति भूतम् भूतम् वा वावरथन्तरम् रथन्तरम् भविष्यत् रथन्तरमिति रथम् तरम् भविष्यद्बृहत् बृहद्भूताद् भूताच्च चैव एवैनम् एनम् भविष्यरः भविष्यतश्च क्षान्तः अन्तरेति एति परिमितम् परिमितम् वा परिमितमिति परिमितम् वावरथन्तरम् रथन्तरमपरिमितम् रथन्तरमिति रथम् तरम् अपरिमितम् बृहत् अपरिमितमित्यपरिमितम् बृहत्परिमितात् परिमिताच्च परिमितादिति परिमितात् चैव एवैनम् एनमपरिमितात् अपरिमिताच्च अपरिमितादित्यपरिमितात् शान्तः अन्तरेति एति विश्वामित्रजमदज्ञी विश्वामित्रजमदग्नी वसिष्ठेन विश्वामित्रजमदग्नी इति विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम् अस्पर्धेता कंसः स एतत् एतज्जमदग्निः जमदग्निर्विहव्यहन् विहव्यमपश्यत् विहव्यमिति विहव्यम् अपश्यत्तेन तेन वै वै सह स्वस्य वसिष्ठस्येन्द्रियम् इन्द्रियम् वीर्यम् वीर्यमवृन्त अवृन्तयत् यद्विहव्यम् विहव्यकम् शस्यते विहव्यमिति विहव्यम् शस्यत इन्द्रियम् इन्द्रियमेव एव तत् तद्वीर्यम् वीर्यम् यजमानः यजमानो भ्रातृव्यस्य भ्रातृव्यस्य वृन्ते वृन्तेजस्य तस्य भूयागुम्सः भूयागुम्सो यज्ञकृतव इति यज्ञाकृतवः इत्याहुः आहः सः स देवताः देवतावृन्ते इति यदि यद्यग्निष्णोमः अग्निष्टोमस्तोमः अग्निष्टोम इत्यग्निः स्तोमः सोमः परस्तात् परस्तात्स्यात् स्यादुःख्यम् उख्यम् कुर्वीत कुर्वीत यदि यद्युक्थ्यः उक्ष्यः स्यात् स्यादतिरात्रम् अतिरात्रम् यज्ञक्रतुभिरेव यज्ञक्रतुभिरिति यज्ञक्रतोभिः एवास्य अस्य देवता आह देवतावृन्ते वृन्तेवसीयान् भवति भवतीति भवति भवती, निग्राभ्या निग्राभ्या इति निग्राभ्या स्थदेवश्रुतः देवश्रुत आयुः देवश्रुत इति देवाश्रुतः आयुर्मे मे तर्पयत तर्पयत प्राणम् मे प्राणविप्राणम् प्राण मे राणम् मे राणमित्यपानम् मे तर्पयत तर्पयतव्यानम् ज्ञानम् मे ज्ञानमिति वीहनम् मे तर्पयत तर्पयत चक्षुः चक्षुर्मे मे तर्पयत तर्पयत श्रोत्रम् श्रोत्रम् मे मे तर्पयत तर्पयत मनः मनो मे मे तर्पयत तर्पयत वाचम् मे मे तर्पयत तर्पयतात्मानम् मे मे तर्पयत ङ्गानि मे मे तर्पयत तर्पयत प्रजाम् प्रजाम्मे प्रजामिति प्राजाम् मे तर्पयत तर्पयतपशून् पशून्मे मे तर्पयत तर्पयतगृहान् गृहान्मे मे तर्पयत तर्पेतगणान् गणान्मेः मे तर्पयत तर्पयत सर्वगणम् सर्वगणम् मा सर्वगणमिति सर्वागणम् मा तर्पयत तर्पयत तर्पयत तर्पयत मा मा मे मा मावि त्रिषन् त्रिषन्नषधयः ओषधयो वै सोमस्य सोमस्य विषः विषो विषः वैराज्ञः राज्ञः प्रदातोः प्रदातोरीश्वराः प्रदातोरिति ऐन्द्रः ऐन्द्रः सोमः सोमो वः वो मनसा मनसा सुजाता इति सुजाताः ऋतप्रजाताभगेः ऋतप्रजाता यत्रिता प्रजाताः भगयत् इद्वः वश्याम स्यामेदि स्याम इन्द्रेण देवीः देवीर्वीरुधः वीरुधः संविधानाः संविधाना अनु संविधाना इति संविधानाः अनुमन्यताम् मन्यन्ताम् समनाय समनाय सोमम् सोममिति इत्याह आहौषधीभ्यः ओषधेभ्य एव ओषधेभ्य इत्यौषधेभ्यः एवैनम् येन गस्वाजी स्वायै विषः विषस्वायी स्वायै देवतायै देवतायै निर्याच्य निर्याच्याभि निर्याच्येति निः याच्च अभिषृणोति शृणोति यः यो वै वै सोमस्य सोमस्याभिषूयमानस्य अभिषूयमानस्य प्रथमः प्रथमो गुंशुः गुंशुः स्कन्दति स्कन्दति सः स ईश्वरः ईश्वर इन्द्रियम् इन्द्रियम् वीर्यम् वीर्यम् प्रजाम् प्रजाम् पशून् प्रजामिति प्राजाम् पशून् यजमानस्य यजमानस्य निरहन्तोः निरहन्तोऽस्तम् निरहन्तोऽनिहीहन्तोः तमभि अभिमन्त्रयेत मन्त्रयेता आमाह मास्कान् अस्कान् सः सः प्रजयाः प्रजया सह प्रजयेदि प्राजयः सः राजः राजस्पोषेण पोषेणेन्द्रियम् इन्द्रियम् मे मे वीर्यम् मानिः निर्वधीः वधीरिति इत्याशिषम् आशिषमेव आशिषमित्या आशिषम् एवैताम् एतामा आशास्ते शास्त इन्द्रियस्य इन्द्रियस्य वीर्यस्य वीर्यस्य प्रजायी प्रजायी पशूनाम् प्रजाय इति प्राजायी पशूनामनिर्घाताय अनिर्घाताय द्रप्सः अनिर्घातायत्यनिः घाताय द्रप्सश्च स्कन्द च स्कन्दपृथिवीम् पृथिवीमनु अनुद्याद्यामिमम् इमम् च योनिम् योनिमनु अनुजः यश्च च पूर्वः पूर्व इति पूर्वः तृतीयम् योनिम् योनिमनु अनुसञ्चरन्तम् सञ्चरन्तम् रप्सम् सञ्चरन्तमिति सारन्तम् रप्सञ्जुहोमि जुहोमि अनुसप्त सप्त होत्रा आह होत्रा इति होत्रा आह यो वै वै देवान् देवान् देवैषसेनेति देवा यशसेन अर्पयति मनुष्यान् मनुष्यान् मनुष्येषसेन मनुष्येषसेन देवैषसी मनुष्येषसेनेति मनुष्या यशसेन देवैषस्येव देवा यशसी एव देवेषु देवेषु भवति भवति मनुष्येष मनुष्येषसि मनुष्येषु मनुष्येषसीति मनुष्या यशसी मनुष्येषु यान् यान् प्राचीनम् प्राचीनमाग्रेणात् आग्रेणाद्ग्रहान् ग्रहाणम् गृह्णीयात् गृह्णीयात्तान् तानुपागुंशु उपागुंशु गृह्णीयात् उपायुषुत्युपगुंशु गृह्णीयाद्यान् यानुर्ध्वान् ऊर्ध्वागस्तान् तानुपब्दिमतः उपब्दिमतो देवान् उपब्दिमत इत्युपब्दिमतः देवानेव एव तत् तद्देवैषसेना देवैषसेना अर्पयति देवैषसेनेति देवयषसेन अर्पयति मनुष्यान् मनुष्यान् मनुष्यैषसेद मनुष्यैषसेन देवैषसि मनुष्यैषसेनेति मनुष्या यशसेद देवैषस्येव देवैषसीति देव एषसी एव देवेषु देवेषु भवति भवति मनुष्यैषसि मनुष्यैषसी मनुष्येषु मनुष्येषति मनुष्या यशसी मनुष्ये एष्वग्निः अग्निः प्रादस्सवने प्रातःसवने पातु प्रातःसवन इति प्रातः सवने पात्वस्मान् अस्मान् वैश्वानरः वैश्वानरो महिना महिना विश्वशम्भोः विश्वशम्भोरिति विश्वाशम्भुः सनाः अः पावकः पावको दधातु दधात्वायुष्मन्तः आयुष्मन्तः सह सहभक्षाः स्याम सह इति सहा भक्षाः स्यामेति देवाः देवा मरुत इन्द्रः इन्द्रो अस्मान् अस्मानस्मिन् अस्मिन् द्वितीये तृतीये सवने सवनेन न जह्युः जह्युरिति जह्युः प्रियम् प्रियमेषाम् येषाम् वदन्तः वदन्तो वयम् वयम् देवानागुम् सुमतौ सुमतौ स्याम सुमताविति सुमतौ श्यामेति स्याम इदम् तृतीयम् तृतीयगुम्सवनम् सवनम् कवीनामृतेन कृते न ये ये चमसम् चमसमैरयन्तैरयन्तेत्यैरयन्त ते सौधन्वनाः सौधन्वराः स्वः स्वरानशानाः आनशानाः स्विष्टिम् स्विष्टिम् नो अभि अभिवसीयः वसीयो नयन्तु नयन्त्विति नयन्तु आयतनवती वै आयतनवतीरित्यायतनावतीः वा अन्याः अन्या आहुतयः आहुतयो हूयन्ते आहुतय इत्याहुतयः ऊयन्तेनायतनाः अनायतना अन्याः अनायतना इत्यनायतनाः अन्यायाः या आघारवतीः आघारवतीस्ताः आघारवतीरित्याघारावतीः ता आयतनवतीः आयतनवतीर्याः आयतनवतीरित्यायतनावतीः याः सौम्याः सौम्यास्ताः ता अनायतनाः अनायतना अयि अनायतना इत्यनायतनाः ऐन्द्रवायुवमादाय ऐन्द्रवायुवमित्य इन्द्रवायुवम् आदायाघारम् आदायेत्या आदाय आघारमा आघारमित्या आघारम् आघारयेद् घारयेदद्धरः अर्धरो यज्ञः यज्ञोऽयम् अयमस्तु अस्तु देवाः देवा, देवा ओषधेभ्यः ओषधेभ्यः पशवे ओषधेभ्य इत्योषधेभ्यः पशवे नः मम जनाय विश्वस्मै विश्वस्मै भूताय भूताया अध्वरः अध्वरोऽसि असि सः स पिन्वस्व पिन्वस्वघृतवत् घृतवद्देव घृतवदिति घृतवत् देव सोम सोमेति इति सौम्याः सौम्या, सौम्या, सौम्या एव एव तत् तदाहुतीः आहुतीरायतनवतीः आहुतिरित्याहुतिः आयतनवतीः करोति आयतनवतीरित्यायतनावतीः करोत्यायतनवान् आयतनवान् भवति आयतनवान् इत्यायतनवान् भवति यः एवम् एवम् वेदा वेदाथोः अथो द्यावापृथिवी अथो वित्थोः द्यावापृथिवी एव द्यावापृथिवी इति द्यावा पृथिवी एव घृतेन घृतेनपि व्युनत्ति उनत्तिते ते व्युत्ते ते यदि ते व्युत्ते उपजीवनीये व्युत्ते इतिवृत्तेः उपजीवनीये भवतः उपजीवनीये इत्युपाजीवनीये भवत उपजीवनीयः उपजीवनीयो भवति उपजीवनीय इत्युपजीवनीयः यः य एवम् एवम् वेद वेदैषः एषते ए ते रुद्रा रुद्रभागः भागोऽयम् यन्निरयाचथाः निरयाचथास्तम् निरयाचथा इतिः अयाचथाः तञ्जुषस्व जुषस्व विदेः विदैर्गौपत्यम् गौपत्यकम् राजः राजस्पोशम् पोषकम् सुवीर्यम् सुवीर्यकम् संवत्सरेणाम् सुवीर्यमिति सुवीर्यम् संवत्सरेणा यः स्वस्तिम् संवत्सरेणामिति संवत्सरेणाम् स्वस्तिमिति स्वस्तिम् पुनःपुत्रेभ्यः पुत्रेभ्योदायम् दायम् वि व्यभजत् अभजरत्सः स नाभानेऽदिष्ठम् नाभानेऽदिष्ठम् ब्रह्मचर्यम् ब्रह्मचर्यम् ब्रह्मचर्यमिति ब्रह्मचर्यम् वसन्तः निरभ अभजरत्सः स आगच्छत् अगच्छत्सः सोऽब्रवीत् अब्रवीत्कथा अब कथामाह मानिः निरभाक् अभागिति इति नत्वानिः निरभाक्षम् अभाक्षमिति इत्यब्रवीत् अब्रवीदङ्गिरसः अब अङ्गिरस इमे इमे सत्रम् सत्रमासते आसते ते हे सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुवभागम् लोकम् जानन्ति तेभ्यः तेभ्य इदम् इदम् ब्राह्मणम् ब्राह्मणम् ब्रूहि ब्रूहिते तेषु वर्गम् सुवर्गम् लोकम् सुवर्गमिति सुवहागम् लोकयन्तः यन्तो ये येषाम् येषाम् पशवः पशवस्तान् प्रागस्ते ते दास्याति दास्यन्तीति इति तत् तदेयेभ्यः एभ्योऽब्रवीत् अब्रवीत्ते तेषु वर्गम् सुवर्गम् लोकम् सुवर्गमिति सुवहागम् लोकयन्तः यन्तो ये य एषाम् एषाम् पशवः पशवः आसन् आसन्तान् तानस्मै अस्मादधुः अददुस्तम् तम् पशुभिः पशुभिश्चरन्तम् पशुभिरिति पशुभिः चरन्तम् यज्ञवास्तौ यज्ञवास्तौ रुद्रः यज्ञवास्ताविदि यज्ञावास्तौ रुद्रा आगच्छत् अगच्छत्सः सोऽपब्रुवीत् अब्रवीन्मम मम वै वा इमे पशवः पशव इति इत्यदुः अधुर्वै वै मह्यम् मह्यमिमान् इमानिति इत्यब्रवीत् अब्रवीन्न न वै वै तस्य दस्यते त ईशते ईशत इति इत्यब्रवीत् यज्ञवास्ताविति यज्ञावास्तौ ईयते मम मम वै वै इति तस्मात् तस्माद्यज्ञवास्तु यज्ञवास्तु न यज्ञवास्तुति यज्ञावास्तु नाभ्यवेत्यम् अभ्यवेत्यकंसः अभ्यवेत्यमित्यभि अवेत्यम् सोऽब्रवीत् अब्रवीद्यज्ञे यज्ञेमाह मा आभज भजाथ अथ ते हे पशून् पशून् नाभि अभिमग्रस्ये मग्ग्रस्य इति तस्मै तस्मादेतम् एतम् मन्थिनः मन्थिनः सगस्रावम् सग्स्रावमजुहोत् सगस्रावमिति संस्रावम् अजुहोत्ततः ततो वै वैतस्य तस्य रुद्रः रुद्रः पशून् नाभि अभ्यमन्यत अमन्यत यत्र यत्रैतम् एतमेवम् एवम् विद्वान् विद्वान्मन्थिनः मन्थिनः सर्गस्रावम् सर्गस्रावम् जुहोति सर्गस्रावमिति संस्रावम् जुहोति न तत्र तत्र रुद्रः रुद्रः पशून् पशूनभि अभिमन्यते इति मन्यते जुष्टो वाचः वाचो भूयासम् भूयासञ्जुष्टः तुष्टो वाचः वाचस्पतये पतये देवि देविवाग् वागिति वाग् यद्वाचः वाचो मधुमत् मधुमत्तस्मिन् माधाः धा स्वाहा स्वाहा सरस्वत्या इति सरस्वतीचा स्तोमम् स्तोमपुंसम् समर्थय अर्थ गायत्रेण गायत्रेण रथन्तरम् रथन्तरमिति रथम् तरम् बृहद्गायत्र वर्तनी गायत्रवर्तनीति गायत्रा वर्तनी यस्ते ए ते द्रप्सः द्रप्सः स्कन्दति स्कन्दति यः यस्ते ए ते अगुंशुः अगुंशुर्बाहुच्युतः बाहुच्युतोधिषणयोः बाहुच्युत इति बाहुच्युतः धिषणयोरुपस्थात् उपस्थादित्युपास्थात् ध्वर्योर्वाहा वा यस्ते ते पवित्रात् पवित्रात्साहाकृतम् स्वाहा कृतमिन्द्राय स्वाहा कृतमिति स्वाहा आकृतम् इन्द्रायतम् इरञ्जुहोमि जुहोमीति जुहोमि यो द्रप्सः द्रप्सो अगुंशुः अगुंशुः पतितः पतितः पृथिव्याम् पृथिव्याम् परिवापात् परिवापात् पुरोडाशात् परिवापादिति परिवापात् प्ररोडाशात्करम्भात् करम्भादिति करम्भात् धानासोमान् मन्थिनः धानासोमादिति धानात् सोमात् मन्थिन इन्द्र इन्द्रशुक्रात् शुक्रात् स्वाहाकृतम् स्वाहाकृतमिन्द्राय स्वाहाकृतमिति स्वाहा आगतम् इन्द्राय तम् तम् जुहोमि जुहोमीति जुहोमि यस्ते त्रेद्रप्सः द्रप्सो मधुमान् मधुमागम् इन्द्रियावान् मधुमानिति इन्द्रियावान् स्वाहाकृतः इन्द्रियावानिति इन्द्रियावान् स्वाहाकृताः स्वाहाकृत इति स्वाहा आगतः पुनरप्येति देवान् अप्येतीत्यपीयेति देवानिति देवान् दिवः पृथिव्याः पृथिव्याः परि पर्यन्तरिक्षात् अन्तरिक्षात् स्वाहाकृतम् स्वाहाकृतमिन्द्राय स्वाहाकृतमिति स्वाहाकृतम् इन्द्रायतम् तञ्जुहोमि जुहोमीति जुहोमि अध्वर्यरुपै वा ऋत्विजाम् ऋत्विजाम् प्रथमः प्रथमो युज्यते युज्यते तेन तेन स्तोमः स्तोमो योक्तव्यः योक्तव्य इति इत्याहुः वाग्रेगाः अग्रेगा अग्रे अग्रेगा इत्यग्रेगाः अग्रेतु एतृजुगाः ऋजुगादेवेभ्यः ऋजुगा इत्युजुगाः देवेभ्यो यशः यशो मयि मयि दधती दधती प्राणान् प्राणान् ऋषिषो प्राणानिति प्राणान् ऋषिषु प्रजाम् प्रजाम् मयि प्रजामिति प्राजाम् मयि च यज्यमाने यज्यमाने च चेति इत्याह आहवाचम् वाचमेव एव तत् तद्यज्ञमुखे यज्ञमुखे जनक्ति यज्ञमुखै यज्ञमुखे नक्तिवास्तु वास्तु वै वा एतत् एतद्यज्ञस्य क्रियते क्रियते यत् यद्ग्रहाणि ग्रहा गृहीत्वा बहिष्पवमानम् बहिष्पवमानकम् सर्पन्ति बहिष्पवमानमिति बहिः पवमानम् सर्पन्ति परा हियन्ति यन्ति पराचीभिः पराचीभिः सुरे वैष्णव्या वैष्णव्यच्च नृ च पुनः सुनरेत्य एत्योप एत्येत्या उपतिष्ठते तिष्ठते यज्ञः यज्ञो वै वै विष्णुः एवाकः अकर्विष्णोः विष्णो इवम् विष्णो इति विष्णोः पुनः नो अन्तमः अन्तमः सहन्त्या सहन्तेति सहन्ध्या प्रते धाराः रा मधुश्च्युतः मधुश्चित उत्सम् मधुश्च्युत इति मधुश्चितः उत्सम् दुःह्रते दुःख्रदे इत्याह आहयत् यदेव एवास्य अस्य शयानस्य शयानस्योपशिष्यति उपशिष्यति तत् उपशिष्यतेत्युपशिष्यति तदेव एवास्य अस्यैतेन एतेना आप्याययति प्यायतीति प्यायति अग्निना रयिम् रयिमश्नवत् अश्नवत्पोषम् कोशमेव एव दिवेदिवे दिवेदिव इति दिवेद्वे यशसं वीरवत्तमम् वीरवत्तममिति वीरवत् तमम् गोमागम् अग्ने गोमानिति गोमान् अग्नेऽभिमान् अभिमागुम् अश्वी अभिमानित्यभिमान् अश्वी यज्ञो नृवत्सखा नृवत्सखासदम् नृवत्सखेति नृवत्सखाः स रमित् इदप्रमृष्यः अप्रमृष्य एषः इडावानिति इडावान् एषो असुरः प्रजावान् प्रजावान् दीर्घः प्रजावान् दीर्घो रयिः रयिः पृथुबुध्नः पृथुबुध्नः सभावान् पृथुबुध्न इति पृथुबुध्नः सभावानिति सभावान् आप्यायस्व पायस्वसम् सन्ते त इति ते यः तष्टारम् तष्टारमग्र्यम् अग्र्यम् विश्वरूपम् विश्वरूपमिति विश्वारूपम् उपह्वये ह्वय इति ह्वये अस्माकमस्तु अस्तु केवलः केवल इति केवलः तन्नः त्वष्टर्वि वीरराणः राणस्य स्वस्य यतो वीरः वीरः कर्मण्यः कर्मण्यः सुदक्षः सुदक्षो सुदक्ष इति सुदक्षः युक्तग्रावाजायते युक्तग्रावेति युक्तार्ग्रावाः जायते देवकामः देवकाम इति देवकाम देवार्कामः शिवस्त्वष्टः स्पष्टविह इहा आगहि यहि विभुः विभुः पोषे विभुरिति विभुः पोष यज्ञे यज्ञेनः यज्ञे यज्ञ यज्ञे यज्ञे उदव अवेत्यव पिशङ्गरूपः सुभरः पिशङ्गरूप इति पिशङ्गारूपः सुभरो वयोधाः सुभर इति सुभरः ययोधाः सृष्टि ययोधा इति वयहाधाः सृष्टि वीरः वीरो जायते जायते देवकामः देवकाम इति देवाकामः देवा प्रजाम् पृष्टाः प्रजामिति प्राजाम् पृष्टावि पिश्यतु यदुनाभिम् अस्मे अथ अस्मे इत्यस्मे अथा देवानाम् देवानामपि अप्येतु ए तु पाथः पाथ सरस्वत -um। प्रजाम। प्रजाम प्रजाम इति पाथः प्रणः नो देवी देव्या आनः नो दिवः दिव इति दिवः एपि वागुम् सकम् सरस्वतः सरस्वतः स्तनम् स्तनञ्जः इव विश्वदर्शतः विश्वदर्शनधुविश्वाददर्शतः धृक्षीमहि प्रजाम् प्रजाविषम् प्रजामिषित् प्राजाम् इषमितीशम् ये त्रे ते सरस्वः सरस्व ऊर्मजः मधुमन्तो घृतश्च्युतः मधुमन्त इति मधुमन्तः घृतश्च्युत इति घृताश्च्युतः तेषाम् ते ते सुम्नम् सुम्नीमहे इम इतीमहे यस्य व्रतम् यन्ति यन्ति सर्वे ये सर्वे यस्य यस्य व्रतम् व्रतमुपतिष्ठन्ते उपतिष्ठन्तापः उपतिष्ठन्तैत्युपातिष्ठन्ते आप इत्यापः यस्य व्रते व्रते पुष्टिपतिः पुष्टिपतिर्निविष्टः पुष्टिपतिरिति पुष्टिपतिः निविष्टस्तम् सरस्वन्दमवसे अवसे हुवेम हुवेमेति हुवेम दिव्यम् सुपर्णम् सुपर्णम् वयसम् सुपर्णमिति सुपर्णम् वयसम् बृहन्तम् बृहन्तमपा अपा गर्भम् वृषभमौषधीनाम् ओषधीनामित्योषधीनाम् अधीपतो वृष्ट्या वृष्ट्या तर्पयन्तम् तर्पयन्तम् तम् तगम् सरस्वन्तमवसे अवसे हुवेम हुवेमेति हुवेम सिनीवालि पृथुष्टुके पृथुष्टुके या पृथुष्टुभेदि या प्रथुष्ट प्रथुष्ट देवानाम् देवानामसि असि स्वसाः स्वसेति स्वसाः दुषस्वहव्यम् हव्यमाहुतम् आहुतम् प्रजाम् आहुतमित्याहुतम् प्रजामिति प्राजाम् देविति दिड्ढि तिदिड्ढिनः न इति नः यासुपाणिः सुपाणिः स्वङ्गुरिः सुपाणिरिति सोपाणिः स्वङ्गुरिः सुषोमाः स्वङ्गुरिति सु अङ्गुरिः सुषोमा बहुसूवरी सुषोमेति सुसोमाः बहुसूवरीति बहुसूवरी तस्यै विष्पत्न्यै विष्पत्न्यै हविः हविःसिनीवाल्यै सिनीवाल्यै जुहोदना जुहोदनेति जुहोदना इन्द्रम् वः व विश्वतः विश्वतःपरी परीन्द्रम् इन्द्र नरः नर इति नरः असितवर्णा हरयः असितवर्णा इत्यसिता वर्णाः हरयः सुपर्णाः सुवर्णामिहः सुपर्णा इति सुपर्णाः इहोपसानाः असानादिवम् दिवौ उत्पतन्ति पतन्तीति पतन्ति आववृत्रम् अववृत्रम् सदनानि सदनानि कृत्वा कृत्वात् आदित् पित्पृथिवी पृथिवी घृतैः घृतैर्वि विद्यते उद्यत इत्युद्यते हिरण्यकेशो रजसः हिरण्यकेश इति हिरण्यकेशः रजसो विसारे विसारे हि विसार इति विसारे अहिर्ध्वनिः ध्वनिर्वातः वात इव विपरधृजीवान् उषसः शुजिर्भाजा इति उषसो न वेदाः न वेदा न सत्याः सत्या इति सत्याः आते पतंते, पतंते म्या, म्या स्तनगंते, स्तनगंते ते सुपर्णाः सुपर्णा अमिनन्त सुपर्णा इति सुपर्णाः अमिनन्त एवैः एवैः कृष्णः कृष्णो नो नाव वृषभो यदि यदीदम् इदमितीदम् शिवाभिर्ना न स्मयमानाभिः स्मयमानाभिरा आगाहात् अद्गात्पतन्ति पतन्तिमिहः निहः स्तनयन्ति स्तनयन्तिभ्रा अभ्रेत्यभ्रा इव विद्युत् विद्युन्मिमाति विद्युदिति विद्युत् इमाति वत्सम् वत्सन्न न माता माता सुशक्ति सिशक्ति, सिशक्ति, सिशक्ति। यदेषाम् एषाम् वृष्टिः वृष्टिरसर्जि असर्जीत्यसर्जि पर्वतश्चित् चिन्महि महि वृद्धः वृद्धोऽविभाय विभाय दिवः दिवश्चित् चेत्सानुसानुरेजत रेजतस्वने स्वने वः व इति क्रीडथ मरुतः मरुतवृष्टिमन्तः दृष्टिमन्त आपः दृष्टिमन्त इत्यृष्टिमन्तः आप इव इव सध्रियञ्चः सध्रियञ्चो धवध्वे धवध्व इति आधा आह उदन्वताः उदन्वतापरि उदन्वतेत्युदन्वताः परिदीय दीया रथेन रथेनेति रथेन दृतिगुंसु सुकर्ष कर्षविषितम् विशितम् न्यञ्चम् विशितमिति वीसितम् न्यञ्चकम् समाः समाभवन्तु भवन्तो उद्वताः उद्वतानिपादाः उद्वतेत्युदगताः निपादायजिनिपादाः त्वन्त्या त्याचित् चिदच्युता लच्यताग्नेः अग्ने पशुः पशुर्न न यवसे यवस इति यवसे धामाः हयत् यत्तेः ते अचर अजरवनाः वना वृष्टन्ति वृष्टन्ति शिक्वसः शिक्वस इति शिक्वसः अग्ने भूरिणि भूरिणि तव तव जातवेदः जातवेदो देव जातवेद दे इति दे जातावेदः देवः सुधावः सुधावो मृतस्य सुधाव इति सुधावः अमृतस्य धामा धामेति धामा याश्च च मायाः मायामायिनाम् मायिनाम् विश्वमिन्व विश्वमिन्वत्वे विश्वमिन्वेति विश्वम् इन्व े इति त्वे पूर्वैः सन्दधुः सन्दधुः पृष्टबन्धो सन्दधुरिसम् दधुः पृष्टबन्धो इति पृष्टाबन्धो दिवो नः नो वृष्टिम् वृष्टिम् मरुतः मरुतो रविध्वम् प्रवीध्वम् प्रपिन्वत पिन्वतपृष्णः कृष्णो अश्वस्य अश्वस्य धारा धारा इति धारा आह अर्वाङ्न एहि इह्यपः अपो इषिञ्चन्नसुरः निषिञ्चन्निति नि सिञ्चन् असुरः पिता पितानः न इति नः इन्नन्त्यपः अपोमरुतः मरुतः सुदानवः सुदानवः पयः सुदानव इति सुदानवः पयो घृतवत् कृतवद्विदधेषु घृतवदिति घृतावत् विदधेष्वाभुवः मिहेवि विनयन्ति नयन्ति वाजिनम् वाजिनमुत्सम् उत्सम् दुहन्ति दुहन्ति स्तनयन्तम् स्तनयन्तमक्षितम् अक्षितमित्यक्षितम् उदप्लुतो मुरुतः उदप्लुत इत्युदापृतः मरुतस्तारम् इयर्त इयर्तवृष्टिम् वृष्टि ये ये विश्वे विश्वे मुरुतः मरुतो जुनन्ति जुहन्तीति जुनन्ति क्रोशाति गर्दाः गर्दाकन्याः कन्येव इव तुन्ना तुन्नापेरुम् तेरन् तुञ्जाना तुञ्जाना प्रत्याह प्रत्येव इव जाया जायेति जाया घृतेन द्यावापृथिवी द्यावापृथिवी मधुना मधुना सम् समुक्षत मुक्षतपयस्वतीः पयस्वतीः कृणत कृणतापः आप ओषधीः ओषधीरित्योषधीः ऊर्जम् च तवत्र तत्र सुमतिम् सुमतिम् च सुमतिमिति सुमतिम् च पिंवथ पिन्वथ यत्र पित्रानः नरोमरुतः मरुतः सिञ्चथ सिञ्चथामधु मध्री मधु मुधु मृत्यम् तञ्चित्रम् चित्रमिति चित्रम् और्वभृगुवच्छ्रुतिम् और्वभृगुवदित्य और्वभृगुवत् श्रुतिमप्नवानवत् अप्नवानवदा अप्नवानवदित्यप्नवानावत् आहुवे हुव इति हुवे अग्निगम् समुद्रवाससम् समुद्रवाससमिति समुद्राभाससम् आ सवम् सवगुंस ऋतुः स पितुर्यथा यथा भुगस्य भगस्येव इव भुजिम् भुजिम् हुवे कुव इति हुवे अग्निपुंसमुद्रवाससम् समुद्रवाससमिति समुद्रावाससम् कुवे वातस्वनम् वातस्वनम् कविम् वातस्वनमिति वातास्वनम् कविम् पर्जन्यक्रन्द्यम् पर्जन्यक्रन्द्यगुंसहः पर्जन्यक्रन्द्यमिति पर्जन्याक्रन्द्यम् सः इति सहः अग्निगुंसमुद्रवाससम् समुद्रवाससमिति समुद्रावाससम् तृतीयकाण्डे प्रथमः प्रश्नः समाप्तः